गरुडपुराणम् आचारकाण्डम् अध्यायम् ट्वेन्टि टु सूद शिवार्चनं शिवार्चनम् प्रवक्ष्यामि भक्तिमुक्तिकरम् परम् शान्तम् सर्वगतम् शून्यम् मात्रा द्वादशके स्थितम् पञ्चवक्त्राणि ह्रस्वानि दीर्घाण्यङ्गानि बिन्दुना सविर्गम् वदेदस्त्रम् शिव ऊर्ध्वम् तद्धा पुनः षष्टेनाथो महामन्त्रो हौमित्येवाखिलार्दः अस्ताभ्याम् संस्पृश्येत् पादावूर्ध्वम् पादान्तमस्तकम् महामुद्रा हि सर्वेषाम् कराङ्गन्याः समाचरेत् तालहस्तेन पृष्टम् च अस्त्र मन्त्रेण शोधयेत् कनिष्ठामादिदकृत्वा तर्जन्यङ्कानि विन्यसेद पूजनं सम्प्रवक्ष्यामि कर्णिकायां हृतं पूजे धर्मं ज्ञानं च वैराग्यमैश्वर्यादिहृदार्चयेद आवाहनं स्थापनं च पाद्यमार्क्यं हृदार्पयेद आचामं स्नपनं पूजामेकाधारणतुल्यताम् अग्निकाल्यविधिं वक्ष्ये अस्त्रेणोल्लेखनं चरेद वर्मणाभिक्षणं कार्यं शक्तिन्यासं हृदा चरेद हृदिवाशक्तिगर्ते च प्रक्षिपे जादवेदसं गर्भाधानाधिकं कृत्वा निष्कृतिं चास्य पश्चिमान् हृदा सर्वकर्म शिवम् साङ्गम् तु होमयेत् पूजयेन्मण्डले शम्भुम् पद्मगर्भे गवाङ्कितम् सूर्यगं सर्वकादि वेदेंदु सर्वकादिवेदेन्दुवरुदनम् अग्नेयाम् कारयेत् कुण्डमर्धचन्द्रनिभम् शुभम् अग्निशास्त्र परायुस्तोदयादिगणोच्यदे अस्त्रं दिशासुपद्मस्य कर्णिकायां सदा शिवः दीक्षां वक्ष्ये पञ्चतत्वे स्थितां भूम्याधिकाम् परे निवृत्तिर्भूप्रतिष्ठाद्यैर्विद्याग्निशान्दिवन्निजः शान्त्यतीदं भवेद्धोम तत्परम् शान्तमव्ययम् येकैकस्य शब्दम् होमित्येवम् पञ्च होमयेद् पश्चात् पूर्णाहृदिम् दत्त्वा प्रासादेन शिवम् स्मरेद प्रायच्चित्तविशुद्ध्यर्थमेकैकाष्ठाहृदिम् क्रमाद होमयेदत्र बीजेन समाप्ययेद व्यजनव्यतिरेकेण गोप्यम् संस्कारमुत्तमम् संस्कार शिवत्वं संस्कारशुद्धस्य शिवत्वम् जायते ध्रुवम् इति श्रीगारूडे महापुराणे आचारकाण्डे शिवार्चनप्रकारो नाम द्वाविंशोऽध्यायः ओम्